ॐ नमो भगवते वासुदेवाय अथ श्रीबृहन्नारदीयपुराणे पुरुषोत्तममासमाहात्मे शिववाक्यं नाम एकादशोऽध्यायः श्रीनारायण उवाच अथारभत कल्याणी तपः परमदारुणं चिन्तयन्ति शिवं शान्तं पञ्चवक्त्रं सनातनं ुजङ्गभूषणं देवं नन्दिभृङ्गिनिषेवितं चतुर्विंशति चन्द्रखण्डलसद्भालं जटाजूट विराजितम् चार दुश्चरं बाल तमुद्दिश्य परन्तपः पञ्चाग्नीनां च मध्ये सा स्थायिनी ग्रीष्मगैरवौ हेमन्ते शिशिरे चैव शीतवार्यन्तरस्थितां व्यक्तवक्त्रा तथा रेजे जलस्थं कमलं यथां शिरोधः प्रसृतश्याम नीलालकविलुण्ठितां जम्बालवल्लरीपुञ्जैर् वेष्टिते वा बभौ जले ब्रह्मरन्ध्रोद्गतः श्रीमद्धूमराजिर्यदृश्यत मिलिन्दादि सेव्यमानेव मिलिन्दादिप्रसर्पिणी वर्षास्वनावृता शेते स्थण्डिलीवृसिकान्विते सन्ध्ययोरुभयोस्तन्वि धूम्रपानमचीकरत् पुरन्दरः परां चिन्ताम् अवापाश्रुत्य तत्तपः दुर्धर्षादिविजैः सर्वैः स्पृहणीया महर्षिभिः एवं तपसिवृत्तायाम् आर्शेयाम् आर्षीयां नृपनन्दनं गतान्यब्दसहस्राणि नवराजन्यभूषणम् सन्तुष्टस्तपसा तस्या भगवान् पार्वतीपतिः दर्शया वासबालायै निजं रूपमगोचरं तद्दृष्ट्वा सहसोत्तस्थौ देहप्राणमिवागतं तपः कृशापि सा बालां पृष्टपुष्टा तदा भूरिवाता तपः क्लिष्टा सा बालावनता भूत्वा वन्दे गिरिजापतिम् मानसैरुपचारैस्तम् सम्पूज्य तुष्टाव तुष्टावजगतां नाथं भक्तियुक्ते न चेतसा बालोवाच अजेषैलजा वल्लभप्राणनाथ प्रभो भर्गभूतेश गौरीशम्भो तमः सोमसूर्याग्निदिव्यत्रिनेत्र मदाधारमुण्डास्थिमालिन्नमस्ते नरोनेकतापाभिभूताङ्गपीड परे घोरसंसारवार्धौ निमग्नः खलव्यालकालो ग्रुदंष्ट्राभिदष्टो विमुच्यते विमुच्येद्भवन्तं शरण्यं प्रपन्नः विभूयेन मृता जीविता लर्कभूपालपत्नी दयानाथ भूतेश चण्डीश भव्य भवत्राणमृत्युञ्जयप्राणनाथ मखध्वंसकर्तः समस्तारिहर्तः सदा सेवकानां भवध्वंसकर्तः से नमो जन्म हर्तः पुरा सृष्टिकर्तस्त्वदीया नवप्राणनाथाघहर्तः इत्येवं मनसावाच शिवं स्तुत्वा तपस्विनि विररामहाभाग मेधावितनया नृप तत्कृतं स्तोत्रमाकर्ण्यं तपसोऽग्रतरेण च प्रसन्नवदनां सदा शिव उवाच वरं वरय भद्रं ते यस्ते मनसि वाञ्छितः प्रसन्नोऽस्मि महाभागे मामाखिदतपस्विनी तदा कर्ण्यकुमारी सा महानन्दपरिप्लुत उवाच राजन् सुप्रसन्नं सदाशिवं बालोवाच दीननाथ दया सिन्धो तदा मत्कामितं देहि मा विलम्बं कुरुप्रभो पतिं देहि पतिं मह्यं पतिं पतिमहामृणे पतिं देहि महादेव नान्यन्मे चिन्तितं हृदि एवमुक्त्वा तदार्शेयि विररामकवर्दिनं तदा कर्ण्यमहादेवो जगादमुनिकन्यकां शिव उवाच त्वयायत् यत् स्वमुखेनोक्तं तदस्तु मुनिकन्यके पञ्चकृत्वया यस्मात् पतिः सम्प्रार्थितोऽधुना तस्मात् पञ्च भविष्यन्ति पतयस्तव सुन्दरि शूराः सकलधर्मज्ञाः साधवः सत्यविक्रमाः यज्ज्वानः स्वगुणख्याताः सत्यसन्धा त्वन्मुखप्रेक्षकाः सर्वे राजन्यागुणशालिनः श्रीकृष्ण उवाच इत्याकर्ण्यवचस्तस्य धूर्जटेरनतिप्रियम् उवाचावनता भूत्वा बालावाक्यविशारदां बालोवाच एवं मे गिरिजाकान्तमास्तु लोकेति कौतुकम् एकस्या एक एवास्ति भर्ता नार्याः सदाशिव न दृष्टा न श्रुता क्वापि नार्येका पञ्चभर्तृका एकस्य पञ्चपत्न्यस्तु पुरुषस्य भवन्ति त्वदीयाहं कथं शम्भो भवेयं पञ्चकभर्तृका त्वदीयाहं कथं शम्भो भवेयं पञ्च भर्तृका नैवार्हसि वचस्त्वेव मय वक्तुं कृपानिधि तवैव जायते लज्जा त्वदीयाहं यतः प्रभो इत्याकर्ण्यवचस्तस्याः शङ्करः प्राहतां पुनः शिव उवाच मास्तु तेऽस्मिन् भव्यं तत्परजन्मनि अयोनिसम्भवा तत्र भविष्यसि तपोवना भर्तृजं सुगमासाद्य ततो गन्त्री परं पदं दुर्वासा मे प्रियो मूर्तिः सत्त्वया वमतः पुरं सचेत्कोपावृतः सुभ्रु निर्दहेद् भुवनत्रयं त्वया गर्वातिरेकेण ब्रह्मतेजः प्रमर्दितम् पुरुषोत्तमस्त्वया नकृतो न कृतो भगवत्प्रियः यस्मिन्नर्पितमैश्वर्यं श्रीकृष्णेनात्मनः स्वकम् अहं ब्रह्मादयो देवा तदाज्ञां को विलङ्घयेत् समासो न त्वया मूढे पूजितो लोकपूजितः अतस्ते पञ्च भविष्यन्ति द्विजात्मजी नान्यथा भावि तद्बालि पुरुषोत्तमखण्डनात् यो वै निन्दतितं मासं स याति घोरौरवम् विपरीतं भवेत् तस्य न कदाप्यन्यथा भवेत् पुरुषोत्तमस्य ये भक्ताः पुत्रपौत्रधनान्विताः परत्रेह भवां सिद्धिम् याता यास्यन्ति यान्ति च वयं सर्वेपि गीर्वाणाः पुरुषोत्तमसेविनः यस्मिन् संसेविते शीघ्रं प्रीयते पुरुषोत्तमः सेवनीयं कथं मासं न भजामः सुमध्यमी अत्युत्कटानां महतां वचो मिथ्या कथं वद अनुनेयाहि मुनयः सदसद्वादवादिनः वदन्येवं नीलकंठा क्षिप्रमन्तर्दधे हरि चकिता सा भवद्बालं यूथभ्रष्टा मृगे यथा शशाङ्कलेखाङ्कितभालदेशे सदाशिवे शैव प्रयाति चिन्ता मुनिराजकन्यां हत्वा यथा नरेन्द्र एतत् श्रीबृहन्नारदीयपुराणी पुरुषोत्तममासमाहात्म्ये शिववाक्यं नाम एकादशोऽध्यायः श्रीपुरुषोत्तमार्पणमस्तु